श्रीमद्भागवतमहापुराणं चतुर्थी स्कन्ध अथ त्रयोविंशोऽध्यायः मैत्री उवाच दृष्ट्वाऽऽऽऽऽऽऽऽऽऽत्मानं प्रवशमेकदा वन्य आत्मान् आत्मना वर्धिताशेष स्वानुसर्गप्रजापतिः जगतस्थू सस्यापि विद्यतो आत्मजे स्वात्मनाम्न्यस्य विरहा द्रुदतीमिव प्रजासु विपणस्वेकसदारोगा तपोवनं तत्राप्यदाभ्यनिमों देखानससुसम्मते आरब्ध उग्रतपसि यथा स्वविजयपुरा <laughs> कन्दमूलफलाहारशुस्कपर्णाशन क्वजेन् अब्सन् अब्भक्ष कतिचिद्ब्यान् वायुभक्सस्ततः परं ग्रीष्मे पञ्चतपीरो वरसा श्वासाण्मुनिः आकण्ठभग्नशिश्रे उदके सण्डिलेशयः ततिक्षुरि यद्वाग्दान्त उर्ध्वरे ताञ्जितानिलहम् आरिराधेशो कृष्णम् अचरत्तप उत्तमम् तेन क्रमानुसिद्धेन ध्वस्तकर्मामलाशयः प्राणायामैः संरुद्धरं दर्गच्छिन्नबन्धन सनत्कुमारो भगवान् यदाहाध्यात्मिकं परं योगं तेनैव पुरुषम् अभजत् पुरुषर्षभ भगवद्धर्मिण साधोः श्रद्धया यत सदा भक्तिर्भगवती ब्रह्मन् अनन्यविषयाभवत् तस्यादया भगवत् परिकर्मशुद्धसत्त्वात्मनस्तदनुसंस्मरणानुपूर्त्या ज्ञानं विरक्तिमधुन्निसितेन येन चिक्षेदसंशयपदं निजजीवकोशं छिन्नाद् अधिरधिङ्गतात्मगतिर्निरीहं तद्वत्यजे छिन्नदिदम्बयुनेन येन तावन्नयोगगतिभिर्यतिरप्रमत्तो यावद् गदाग्रजकथा सुरतिं न कुर्यात् एवं शबीरप्रवरसंयोज्यात्मानमात्मने ब्रह्मभूतो दृढं काले तत्याजशं कलेवरं सम्पीड्यपायुं पाष्णिभ्यां वायुमुस्सार्यच्छनैः नाभ्यां कोष्ठे सुवस्थाभ्य श्रीदुरकण्ठशीर्षणे उत्सर्पयस्तुं तं वृद्धि क्रमीणावेशनेष्विह वायुं वायौ कायं तेजस्तेजसि यूयुजत यू खान्याकाशे द्रुवं तो ये यसानं विभागश क्षितिमभ्यंसि तत्तेजस्य दो वायौ लभस्य मुम् इन्द्रियेषु मनस्नानि तन्मात्रेषु भूतादीनामूं युत्कस्कृष्य महत्यात्मनिषद् सन्दधे तं जीवे मायामयि निधात् तं चानुशयमात्मस्थम् असावनुशंसी पुमान् स्वरूपस्थो स्वरूपस्थोजहात्रभुम् अर्जुर्नाम महाराज्ञी सुकुरुं सुकौमार्य तदान्तदर्हा च यत्पद्भ्यां स्पर्शनं भुवः अतिवभर्तु वृतद्धर्मनिष्ठया शुशूषयाचारसुदेहयात्रया नाविन्दतार्तिपरिकर्षितापि स प्रेयस्करस्पर्शनमान्निवृत्ते देहं विपन्ना किल चेतनादिकं प्रद्यो पृथिव्याजयितस्य चात्मनः आलक्ष्य किञ्चिच्य विलप्य शासते चितामथारोपयदं दृशानुरे विधाय कृत्यं भजनीजलाप्लुता तद्वोदकं भरतुरुदारकर्मणः नत्वादिभिस्थांसि दुसांसि परित्यविवेशवह्निं ध्यायतिं भजति पादौ विलोक्यानुकृतां साद्भिं पृथिं तुष्टपुर्व्रता देवै देवपत्न्यसहस्रशा कुर्वत्य सुकुमासारं तस्मिन् मन्दरसारुणी ददस्वम्बर्तुर्येषु गृह्णन्ति स्म परस्परं देव्यूचुः अहोयं वधुरधन्या याचैव भुजतां पतिं सर्वात्मना यज्ञे संधि सैषानूनं रजत्यूर्ध्वमनुवैन्यं पतिंसति पश्यतास्मानिन्नित्याुर्विभाव्येन कर्मणा तेषां दुरापं किं त्वन्यमन्स्यानां भगवत्पदं विलोलायुषो ये वै नैष्करिं नैष्करिण्यं साधयत्युत स वञ्चितो वतात्मधौ महता भवे लब्ध्वापवर्ग्यं मानुष्यं विशेषो विसज्यते मैत्री उवाच सुवती स्वामरस्त्रेषु पतिलोकं गतावधू जं वा आत्मविदां धुर्यो वैन्यप्रापाच्युताशयः इत्थम्भूतानुभावोऽसौ पृथूष भगवत्तमः कीर्ति तं तस्य चरितम् उद्दामचरितस्य ते य इदं शो महत्पुण्यं श्रद्धया विहितः पठे सा वेशृणयाद्वापि स पृथो पदवी मयात् ब्राह्मणो ब्रह्मवरचस्वीराजन्यो जगति पतिः देश्यपठन् विट्पतिः स्याच्छिद्रसत्नमता मयात् स्वीकृत्व इदमाकर्ण नरो नार्य अथवादिताम् अप्रजसुप्रजतमो निर्धनो धनुवत्तमः अस्पष्टीकृतेष्वेषा मरुखो भवति पण्डितः इदं स्वस्तेनं पुंसाम् अमङ्गल्यनिवारणं धन्यं यशस्यम् आयुष्यं स्वर्गं कलिमलापहं धर्मार्थकाममोक्षाणां सम्यक् सिद्धिमभिक्षुभि तद्यैतदनुश्रां चतुर्णां कारणं परं विजयाभिमुखो राजा सुद्वैतद्वियाति बलिं तस्मै हरन्त्यग्रे राजान पृथिवे यथा मुक्ता निसङ्गो भगवत्यबलां भक्तिमुद्वहन् वैन्यस्य चरितं पुण्यम् श्रुण्या श्रयेत्पठे वैचित्र्यवीर्यावियतम् महन्माहात्मसूचकम् अस्मिन् कृतमतिर्मर्त्य पार्थिवीं गतिम् आप्नुयात् अनुदिनमिदमारे मादरेण शृण्वन् प्रचरितं प्रीतिं प्रथयन् विमुग्धसङ्गः भगवती भवसिन्धुपोतपादे स च निपुणां लभते रतिं मनुष्यः ते श्रीमद्भागवते महापुराणे परंसां चयितायां चतुरस्य स्कन्धे त्रयोविंशोऽध्यायः